हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे त्रयस्नै सर्गः स्वरमया सीताया शान्त्व रावणमाया धरस्य उद्घाटनम् श्रीरामागमन सम्बन्धि प्रियसंवादस्य निवेदनं तदीयविजयस्य समर्थनं च सीतान्तु मोहितान् दृष्ट्वा शमा नाम राक्षसि आशसादाथ वैदेहीं प्रियां प्रणायिनी सखीं बोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम् आश्वासयामास मृदुभाषिणी सा हि तत्र कृता मित्रं सीतया रक्षमाणया रक्षन्ति रावणादीष्टा सानुक्रोशा दृढव्रता सा दर्श सखी सीतां सर्मा नष्ट चेतसाम् उपावृत्यो स्थितां ध्वस्ताम् वडवामिव पांशुषु तां च मा न सूरताम् समाश्वसिः वैदेहि मा भूत्ते मनसो व्यथा उक्ता यद् रावणेन त्वम् प्रत्युक्तश्च स्वयं त्वया सखि मया सर्वं प्रतिश्रुतं लीनय गहने शून्ये भयमुत्सृज्य रावणात् तव हेतोर्विशालाक्षि न हि मे रावणाद्भयं सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः तत्र मे विदितं सर्वम् अभिनिष्क्रम्य मैथिली न शक्यं सौप्तकम् कर्तुम् रामस्य विदितात्मनः वधश्च पुरुषव्याघृहे तस्मिन्नेवोपपद्यते न त्वेवं वा सुरादेव शभ्येनेव रामेण हि सुरक्षितः दीर्घवृत्तः भुज श्रीमान् महोरथ प्रसपवन् धन्वि सन्नोपेतो धर्मात्मा भुवि विश्रुतः विक्रान्तो रक्षिता नित्यम् आत्मनश्च परस्य च लक्ष्मणेन स भ्रात्रा कुलीन्दो नयशास्त्रवि परबलो घानाम् अचिन्त्य बलपौरुषः न हतो राघव श्रीमान् शीते चतुर्निबर्हणः अयुक्तबुद्धिः कृत्येन सर्वभूतविरोधिना एवं प्रयुक्ता रौद्रेण माया माया विना त्वयि शोकस्ते विगतस्सर्वे कल्याणं त्वामुपस्थितम् ध्रुवं भजते लक्ष्मी प्रियं ते भवति शृणु उत्तीर्य सागरं राम सह वानरसेन सन्निविष्ट समुद्रस्य तीरमासाद्य दक्षिणम् दृष्टो मे परिपूर्णार्थ काकुत्स्थ सः लक्ष्मणः सहितैः सागरान्तस्थै बलयति कतिरक्षितः अनेन प्रेषिता ये च राक्षसा लघुविक्रमः राघवतीण इत्येवम् प्रवृत्तितैः हृता स तां श्रुत्वा विशा राक्षसै प्रवृत्तिम् राक्षसाधिपः एष मन्त्रयते सर्वैः सचिवै सह रावण इति ब्रुवाणा शरमा राक्षसी सीतया सर्वोद्योगेन सैन्यानाम् शब्दम् चुच्रावभैरवम् दण्ड निर्घात वादिन्या श्रुत्वा भैर्या महास्वनम् उवाच शर्मासीताम् इदम् अधूरभाषिणी सन्नहजननी हेशा भैरव भीरुभैरिक भैरीनादम् च गम्भीरम् शृणुतो य कल्प्यन्ते मत्तमातङ्गाय युज्यते युज्यन्ते रथवाजिनः दृश्यन्ते तुरगारूढा प्रासहस्ताः सहस्रज तत्र तत्र च सन्नद्धाय सम्पतन्ति सहस्रज आपूर्यन्ते राजमार्गाः सैन्य अद्भुतदर्शनये वेगवद्भिश्च योगैव सगृहे शस्त्राणां च प्रसन्नाम् शर्मणां वर्मणां तथा रथभाजी गजानाम् च राक्षसेन्द्रानुयायिनां सम्भ्रमो रक्षसा मेश रुषितानाम् तरस्विनाम् प्रभाम् विसृजताम् पश्य नानावर्णसमुत्थिताम् वनं निर्दहतो घर्मे यथा रूपम् विभावसो घण्टानाम् शृणु निर्घोचम् रथानाम् शृणु निस्वनम् हयानाम् हेषमाणानाम् शृणु तूर्य ध्वनिम् तथा उद्यतायुधहस्तानाम् राक्षसेन्द्रायनुयायिनाम् सम्भ्रमो राक्षसामेष तुमुलौ लोमहर्षणम् लो श्रीत्वाम् भजति शोकग्निः रक्षसाम् भयमागतम् रामः कमलपत्राक्षो दैन्यानाम् इव वासः अवजित्यजितक्रोधेत्य पराक्रमः रावणम् समरेहत्वा भर्ता त्वाधी गमिष्यस्ति विक्रमेशति रक्षसु भर्ता ते स लक्ष्मणः यथा चत्रुषु शत्रुघ्नो विष्णुलासः वासवः आगतस्य हि रामस्य क्षिप्रम् अङ्कागताम् सतिम् अहम् द्रक्ष्यामि सिद्धार्थम् तं शत्रो विनिपाति अस्त्राणि समागम्य परीष्वक्ता तस्योरसि महोरथः अचिरान् मोक्षते सीते देवी ते जगनम् गताम् धृतामेकां बहून्मासाम् तस्य दृष्ट्वा मुखं देवी, पूर्णचन्द्रम् विबोधितम् मोक्षते शोकजम्वारी निर्मोकमिव पन्नगी रावणम् सभरे हत्वा नचिरा देव मैथिली त्वया समग्र सुखार्हो लप्स्यते सुखम् सभाजिता तं रामेण मुदिष्यसि महात्मनः सुवर्षेण समायुक्ता यथा सस्येन मेदिनी गिरिवरमभितो विवर्धमानौ भयैव मण्डलमासूय करोति तमियचरणमभ्युपैः देवी दिवसकरम् प्रभवूह्ययम् प्रजानाम् इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिक विरुद्धकण्डे त्रेयस्मिन् च सर्ग हे श्रीसीतारामचन्द्रार्पणमस्तु